मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं तर्टि नैन् वक्रतुण्डान्तर्धानम् श्रीगणेशाय नमः मुद्गल उवाच मत्सरं शान्तिमापन्नं दृष्ट्वा देवर्षयस्तदा प्रहृष्टमनसो जादास्तुष्टुवुस्त गजाननम् देवर्षय ऊचुः सदा ब्रह्मभूतं विकारादिहीनं विकारादिभूतं महेशादिवन्द्यम् अपारस्वरूपं वेद्यमेकं नमामः सदा वक्रतुण्डं भजामः अजं निर्विकल्पं कलाकालहीनं हृदिस्थं सदा साक्षिरूपं परेशं जनज्ञानकारं प्रकाशैर्विहीनं नमामः सदा वक्रतुण्डं भजामः अनन्दस्वरूपं सदानन्दकन्दं प्रकाशस्वरूपं सदा सर्वगं तम् अनादिं गुणादिं गुणाधारभूतं नमामः सदा वक्रतुण्डं भजामः धरा तोयभावं सदाकाशरूपं महाभूतसंस्थम् अहङ्कारधारं तमो नमामः सदा वक्रतुण्डं भजामः रविप्राणविष्णुप्रचेतोऽयमेश विधात्रश्वि वैश्वानरेन्द्रप्रकाशं दिशाम्बोथगं सर्वदेवाधिरूपं नमामः सदा वक्रतुण्डं भजामः उपस्तत्त्वगुक्रीक्षणस् काशं कराङ्घ्रिस्वरूपं कृतघ्राणजिह्वं गुतस्थं श्रुदिस्थं महाकप्रकाशं नमामः सदा वक्रतुण्डं रजोरूप रजोरूपसृष्टिप्रकाशे विधिं तं सदा पालने केशवं सत्वसंस्थं। तमोरूपधारं हरं संहरं तं नमामः सदा वक्रतुण्डं भजामः दिशाधीशरूपं सदा शाश्वरूपं ग्रहाधिप्रकाशं ध्रुवादिं कगस्तम् अनन्दोडुरूपं तदाकारहीनं नमामः सदा वक्रतुण्डं भजामः महत्तत्त्वरूपं प्रधानस्वरूपमहङ्कारधारं त्रयी बोधकारम् अनाद्यन्तमायं तदाधारपुच्छं नमामः सदा वक्रतुण्डं भजामः सदा कर्मधारं भलैः स्वर्गदन्तमकर्मप्रकाशेन मुक्तिप्रदन्तम् विकर्मादिना यादनाधारभूतं नमामः सदा वक्रतुण्डं भजामः अलोभस्वरूपं सदा लोभधारं जनज्ञानकारं जनाधीशपालं नृणां सिद्धिदं मानवं मानवस्थं नमामः सदा वक्रतुण्डं भजामः लतावृक्षरूपं सदा पक्षिरूपम् धनादिप्रकाशं सदा धान्यरूपम् प्रसुपुत्रपौत्रादिनास्वरूपं नमामः सदा वक्त्रतुण्डं भजामः खगेशस्वरूपं वृषादिप्रशंस्थं मृगेन्द्रादिबोधं मृगेन्द्रस्वरूपम् धराधार हेमाद्रिमेरुस्वरूपं नमामः सदा वक्रतुण्डं भजामः सुवर्णादि धादुस्तसद्रङ्गसंस्तं समुद्रादिमेघस्वरूपं जलस्तं जले जन्तुमत्स्यादिनाविभेदं नमामः सदा वक्रतुण्डं भजामः सदा शेषनागादिनागस्वरूपं सदा नागभूषं च लीलाकरं तैः सुरारिस्वरूपं च दैत्यादिभूतं नमामः सदा वक्रतुण्डं भजामः वरं पाशधारं सदा भक्रपोषं महापौरुषं मायिनं सिंहसंस्थं चतुर्बाहुधारं सदा विघ्ननाशं नमामः सदा वक्रतुण्डं भजामः गणेशं गणेशादिवन्द्यं सुरेशं परं सर्वपूज्यं सुबोधादिगम्यं महावाक्यवेदान्तवेद्यं परेशं नमामः सदा वक्रतुण्डं भजामः अनन्दावतारै सदा पालयन्तं स्वधर्मादिसंस्तं जनं कारयन्तं सुरैर्दैत्यपैर्वन्द्यमेकं समं त्वां नमामः सदा वक्रतुण्डं ध्वजामः त्वया नाशितोऽयं महादैत्यभूपः सुशान्तेर्धरोऽयं कृतस्थेन विश्वम् अखण्डप्रकर्षेण युक्तं च तं वै नमामः सदा वक्रतुण्डं भजामः न विन्दीयं वेदवेदज्ञमर्त्या न विन्दयं शास्त्रशास्त्रज्ञभूपाः न विन्दीयं योगयोगीशकाद्या नमामः सदा वक्रतुण्डं भजामः न वेदा विदुर्यं च देवेन्द्रमुख्या न योगैर्मुनीन्द्रा वयं किं स्तुमश्च तथा विश्वबुद्ध्या वक्रतुण्डं नमामः सदा वक्रतुण्डं भजामः मुद्गल उवाच एवं स्तुत्वा वक्रतुण्डं स्थिता देवर्षिप्रभो बद्धाञ्जलिपुडा सर्वे भावे नमानदा देवानां च मुनीनां स स्तुतिं श्रुत्वा गजाननः उवाच तान् प्रसन्नात्मा हर्यष्यन् वचनं महद वक्रतुण्ड उवाच शृणुध्वमुनय सर्वे देवा वचनं महद भवत्कृतमिदं स्तोत्रम् मत्प्रीतेर्वधनं भवेद् अननस्तौदि यो नित्यं मां तस्य परिपूरये भोगान्नाविधांश्चैव पुत्रपौत्रादिसम्पदः यं यमिच्छति तं च दास्येकं नात्र भुक्तिमुक्तिप्रदं चैतद्ब्रह्मभूयकरं भवेद नानासिद्धिप्रदं चैव हृदि बुद्धिप्रकाशकं सुरेन्द्र ऐर्वन्ध्यदां यादि यो मां स्तौदि त्वनेन सह सहस्रावर्तनान्मर्त्यकारागृह गतं नरम् मोचयन्नात्र सन्देहो मत्प्रियः सर्वदा भवेद् अपराधशतैर्युक्तो यो वै भवति मानवः तस्यापराधसहनं करोमि स्तोत्रपाठतः एकविंशतिवारम्य एकविंशद्दिनानि वै पठिष्यति सदा तस्मै चिन्तितं प्रददाम्यहम् एकविंशदिका श्लोका भवद्भिर्मत्प्रियात्मकैः कृतास्तैर्मांस देवास्तुस्तुदावै मुनयोकिलाह। तेन मुनयोकिलाः तेन रुचयस्ताधा स्वधर्मरुचयस्तथा भविष्यधमहाभागा भुक्ति मुक्तिप्रदास्तथा वरं ब्रूदमहाभागा येषां यन्मनसि स्थितं तद्दास्यामि न सन्देहस्तोत्र सन्तोषितो ह्यहं मुद्गल उवाच यवमुक्ता सुरा सर्वे मुनयस्तं प्रणम्य च प्रहृष्टमनसा ऊचुर् वक्रतुण्डं महाबलं देवर्षय ऊचुः यदि प्रसन्नतां यादो वक्रतुण्ड ददासि चेद त्वदीयामचलां भक्तिं देखिनाथ दयानिधे दे। यदि प्राप्ता त्वदीया च भक्तिर्जन्तोस्तदा प्रभो किं दुर्लभं हस्तगास्सर्वसिद्धयः अदो भवति महाभागदेहिनो विघ्ननायकः तया तृप्ता भविष्यामस्त्वत्पादप्रवणा वयं तेषां वचनमाकर्ण्य देवदेवो गजाननः जगादभावगम्भीरं ज्ञादाविज्ञजनप्रियः वक्रतुण्ड उवाच मदीया भक्तिरचला भविष्यदिनसंशयः भा भवताम् भावयुक्तानां भोभो देवर्षयः खलु अन्तर्दधे स उक्तैवं वक्रतुण्डो गणेश्वरः पश्यतां मुनिदेवानां स्वानन्दस्थो बभूवः तदो देवर्षय सर्वे खिन्ना स्वस्वपदं ययुः ध्यायन्तश्च तमे वैदे वक्रतुण्डं सुसिद्धिदं मत्सरोऽपि तदसर्वैर्दैत्यैः परिवृधो ययौ स्वं पदं पालयन् शीघ्रम् सुशान्तो ह्यभवत् सदा तं त्यक्त्वा दैत्यसङ्कास्ते ययुः स्वं स्वं गृहं मुने एवं मत्सरमाहात्म्यं वक्रतुण्डेन कारिदम् स एव वक्रतुण्डस्तु सृजत्यवधि च प्रभुः हरते भावहीनः सन् नाद्यमध्यान्धस्वयं नानावतारेण स्वस्वधर्मरथान् सुरान् असुरान् मानवादींश्च कुरुदे वक्रतुण्डकः अवतारा अनन्ताश्च वक्रतुण्डस्य भो विभो चरित्रमखिलं तेषां कथितुं शक्यते न वै ब्रह्मणा षण्मुखेनापि विष्णुना शङ्करेण च शेषेण मुनिभिश्चैव वेधैकाकं च तत्र वै दिवो दासशमार्थाय स एवं वक्रतुण्टकः शिवपुत्रत्वमापन्नो डुण्डिराजे दिनामदः वामनस्य वरं दातुं स एव गणनायकः प्रकटो भून्महातेजास्तस्याग्रे भक्तपालकः एवं नानावतारैश्च भक्तरक्षणलालसः करोदि भक्तसंरक्षां जानीहि त्वं प्रजापदे ब्रह्मणा सृष्टिकार्यार्थं व्याकुलेन स न स्मृदः वक्रतुण्डस्तदो दैत्यो मत्सरः प्रविवेशतं तेना सुरस्वभावेन पीडितो विधिरद्भुतम् विघ्नयुक्तो भवत्तत्र सृष्टिं कर्तुम् न सक्षमः पुरातनं भज स्मृत्वा पुनस्तम् शरणं ययविधिर्विघ्नविहीनः ससर्ज सकलं जगत् ॐ तत्सदिश्रीमदान्त्ये पुराणोपनिषद्दि मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते वक्रतुण्डान्तर्धानं नामैकोनचत्वारिंशोऽध्यायः ॐ